कृष्णयजुर्वेदे क्रमपाठे चतुर्थकाण्डे पञ्चमः प्रश्नः प्रारम्भः ओ नमस्ते ते रुद्र रुद्रमन्द्यवे मन्यव उत उत ते रुद्रा, रुद्रा ए उत इत्युतो त इषवे इषवे नमः नम इति नमः नमस्ते ते अस्तु अस्तु धन्वने धन्वने बाहुभ्या अहम् बाहुभ्यामुत बाहुभ्यामिति बाहूभ्याम् उतते ते नमः नम नमः याते ए तयिषुः इषुः शिवतमा सवतमेति शिवातमा शिवम् बभूव बभूवते ते धनुः धनुरिति धनुः शिवा शर्व्या शर्व्या या यातव तव तया तया नः मृडयेति मृडय याते ए रुद्रशिवा शिवातनूः तनूरघोरा घोरापापकाशिनी पापकाशिनीत्यपापकाशिनीः यानः दस्तनुवा तनुवा शन्तमया शन्तमया गिरिशन्त शन्तमये दिशाम् तमयाः गिरिशन्ताभि गिरिशन्तेति गिरिशन्त अभि चाकशीः चाकशीःति चाकशीः याविषुम् इषुम् गिरिशन्त गिरिशन्त हस्ते हस्ते बिभर्षि बिभर्ष्यस्तवे अस्तव इत्यस्तवे शिवाङ्गिरित्र गिरित्रताम् गिरित्रेति गिरित्रा ताम् गिरित्रे कुरु कुरुमा मा हिगुंसीः हिगुंसेः पुरुषम् पुरुषम् जगत् जगदिति जगत् शिवेन वचसा वचसा त्वा त्वा गिरिशाच्छ अच्छा वदामसि वदामसीति वदामसि यथा नः नः सर्वम् सर्वमित् इज्जगत् जगदयक्ष्मम् अयक्ष्मगुम् सुमनाह सुमना इति सूमनाः असदित्यसत् अध्यवोचत् अवोचदधिवक्ता अधिवक्ता प्रथमः अधिवक्तेत्यधिवक्ता प्रथमो दैव्यः दैव्याभिषक् भिषगितिभिषग् अहीकिश्च च सर्वान् सर्वान् जम्भयन् जम्भयान् सर्वाः सर्वाश्च स यातु धान्यः यातु इति यातु धान्यः आसव्याः यस्ताम्रः ताम्रो अरुणः अरुण उत उत बभ्रुः बभ्रुः सुमङ्गलः सुमङ्गल इति सुमङ्गलः ये च चेमाम् रुद्राः रुद्रा, रुद्रा अभितः अभितो दिक्षु दिक्षु श्रिताः श्रिताः सहस्रशः सहस्रशो सहस्रश इति सहस्रशः अवैषाम् एषा गुम्हेडः हेडईमहे ईमः इतीमहे रासौ यः योऽवसर्पति अवसर्पति नीलग्रीवः अवसर्पतीत्यवसर्पति नीलग्रीवो विलोहितः नीलग्रीव इति नीलग्रीवः विलोहित इति विलोहितः उतैनम् एनम् गोपाः गोपा अदृशन् गोपा इति गोपाः अदृशन् अदृशन् अदृशन् उदहार्यः उदहार्य इत्युदहार्यः उतैनम् एनम् विश्वा विश्वा भूतानि भूतानि सः स दृष्टो प्रणयाति प्रणयाति नः नमो अस्तु अस्तु नीलग्रीवाय नीलग्रीवाय सहस्राक्षाय नीलग्रीवायेति नीलाग्रीवाय सहस्राक्षाय मीढुषे सहस्राक्षाय मीढुष इति मीढुषेः अथो ये अथो इत्यथोः ये अस्य अस्य सत्त्वानः सत्त्वानोऽहम् अहम् तेभ्यः तेभ्योऽकरम् नमः नम इति नमः प्रमुञ्च धन्वनः धन्वनस्त्वम् त्वमुभयोः उभयोरात्मयोः आर्त्मियोर्ज्याम् ज्यामिति ज्याम याश्च चते ते हस्तेः हस्तैषवः इषवः पराः पराताः ता भगवः भगवो पप भगव इति भगवः पपेति पप अवतत्यधनुः अवतत्येत्यवतत्य धनुस्त्वम् त्वकम् सहस्राक्ष सहस्राक्षसतेषुधे सहस्राक्षेति सहस्राक्ष शतेषुध इति शत इषुधे निषीर्यशल्याणाम् निशीर्यैति निषीर्य शल्यानाम् मुखाः मुखा शिवः शिवो नः सुमना भव सुमना इति भवेति भव वीज्यम् धनुः वीज्यमिति वीज्यम् धनुः कपर्दिनः कपर्दिनो विशल्यः विशल्यो विशल्य इति विशल्यः बाणवागुम् उत बाणवानिति बाणावान् अनेशन्नस्य अस्येशवः इषव आभुः आभुरस्य अस्य निषङ्गतिः निषङ्गतिरिति निषङ्गतिः या ते एहेतिः मेढुष्टमहस्ते ए मेढुष्टमेति हस्ते बभूव बभूव ते ते धनुः धनुरिति धनुः विश्वतः विश्वतस्त्वम् त्वमयक्ष्मया अयक्ष्मयापरि परिद्भुज भुजेति भुज नमस्ते ते अस्तु अस्त्वायुधाय आयुधाय अनातताय अनातताय धृष्णवेः अनाततायेत्यनातताय धृष्णव इति धृष्णवेः उभाभ्यामुत उततेः त्वे नमः नमो बाहुभ्याम् बाहुभ्याम् तव बाहुभ्यामिति बाहूभ्याम् तव धन्वने धन्वन इति धन्वने परिते हे धन्वनः धन्वनो हेतिः हेतिरस्मान् अस्मान्वृणकौ प्राक्तु विश्वतः विश्वत इति विश्वतः अथो यः अथो इत्यथोः य इषुधिः इषुधिस्तव इषुधिरिति इषुधिः तवारे आरे अस्मत् अस्मन्निधेहि देहितम् तमिति तम् नमो हिरण्यबाहवे हिरण्यबाहवे सेनान्ये हिरण्यबाहव इति हिरण्यबाहवे सेनान्ये दिशाम् सेनान्य पतये नमः नमो नमः नमो वृक्षेभ्यो हरिकेशेभ्यः हरिकेशेभ्यः पशूनाम् हरिकेशेभ्य इति हरिकेशेभ्यः पशूनाम् पतये पतये नमः नमो नमः नमः सस्पिञ्जराय सस्पिञ्जराय त्विषीमते त्विषीमते पथीनाम् इति त्विषीमते पतये पतये नमः नमो नमः नमो बभुषाय बभ्रुषायपि व्याधिनेः पिव्याधिनेन्नानाम् पिव्याधिन इति पिव्याधिनेः अन्नानाम् पतये पतये नमः नमो नमः नमो हरिकेशाय हरिकेशायोपवीतिनेः हरिकेशायेति हरिकेशाय उपवीतिने पुष्टानाम् उपवीतिन इत्युपावीतिनेः पुष्टानाम् पतये पतये नमः नमो नमः नमो भवस्य भवस्य हेत्यै हेत्यै जगताम् जगताम् प्रतये पतये नमः नमो नमः नमो रुद्राय रुद्राय तताविनेः आतताविने क्षेत्राणाम् आतताविन इत्याह तताविनेः क्षेत्राणाम् पतगे पतगे नमः नमो नमः नमः सूताय सूतायाहन्त्याय अहन्त्याय वनाम् वनानाम् पतगे पतगे नमः नमो नमः नमो रोहिताय रोहिताय स्थपतगे स्थपतगे वृक्षाणाम् कक्षाणाम् पतये पतये नमः नमो नमः नमो मन्त्रिणेः मन्त्रिणे वाणिजाय वाणिजाय कक्षाणाम् कक्षाणाम् पतये पतये नमः नमो नमः नमो भुवन्तये भुवन्तये वारिवस्कृताय वारिवस्कृताय औषधीनाम् वारिवस्कृतायेति वारिवः कृताय ओषधीनाम् पतये पतये नमः नमो नमः नमो उच्चैर्घोषाय उच्चैर्घोषाय क्रन्दयरे उच्चैर्घोषायेत्युच्चैः घोषाय आक्रन्दयते पत्तीनाम् आक्रन्दयत इत्याह क्रन्दयते पत्तीनाम् पतये पतये नमः नमो नमः नमः कृत्स्नगीताय कृत्स्नवीताय धावते कृत्सनवीतायेति कृत्स्नगीताय धावते सत्त्वनाम् सत्त्वनाम् पतये पतये नमः नम इति नमः नमः सहमानाय सहमानाय निव्याधिनेः इव्याधिन आव्याधिनीनाम् इव्याधिन इति नि व्याधिनेः आव्याधिनीनाम् पतगे आव्याधिनीनामित्याह व्याधिनीनाम् पतये नमः नमो नमः नमः ककुभाय ककुभाय निषङ्गिणेः निषङ्गिणेः स्तेनानाम् निषङ्गिण इति निसङ्गिणेः स्तेनाम् पतगे पतये नमः नमो नमः नमो निषङ्गिणेः इषङ्गिण इषुधिमतेः निषङ्गिण इति निसङ्गिनेः इषुधिमते तस्कराणाम् इषुधिमत इतिषुधिमतेः तस्कराणाम् पतये पतये नमः नमो नमः नमो वञ्चते वञ्चते परिवञ्चते परिवञ्चते स्ताजूनाम् परिवञ्चत इति परिवञ्चते स्तायूनाम् पतये पतये नमः नमो नमः नमो निचेरवेः निचेर्वे परिचराय निचेरव इति नीचेरवेः परिचरायारण्यानाम् परिचरायेति परिचराय पतये पतगे नमः नमो नमः नमः सृकाविभ्यः सृकाविभ्यो जिघागुंसद्भ्यः सृकाविभ्येति सृकाविभ्यः दिघागुम्सद्भ्यो पुष्पताम् जिघागुम्सद्भेति जिघागुंसतेभ्यः पुष्पताम् पतये पतये नमः नमो नमः नमोऽसिमद्भ्यः असिमद्भ्यो रक्तम् असिमद्भ्येत्यसिमतेभ्यः रक्तम् चरद्भ्यः चरद्भ्यस्तकन्तानाम् चरद्भ्येति चरतेभ्यः प्रकृन्तानाम् पतये प्रकृन्तानामिरि प्राकृन्तानाम् पतये नमः नमो नमः नम उष्णेषणे उष्णेषणे गिरिचराय गिरिचराय कुलुञ्चानाम् गिरिचराजेति गिरिचराज कुलुञ्चानाम् पतये पतये नमः नमो नमः नम इषुमद्भ्यः इषुमद्भ्यो धन्वाविभ्यः इषुमद्भ्य इति इषुमद्भ्यः धन्द्वाविभ्यश्च धन्वाविभ्य इति धन्वाविभ्यः चरः वो नमो नमः आतम्बानेभ्यः आतुम्बानेभ्यः प्रतिदधानेभ्यः आतम्बानेभ्य इत्याहम्बानेभ्यः प्रतिदधानेभ्यश्च प्रतिदधानेभ्य इति प्रतिदधानेभ्यः चपः गोनमः न मो नमः नम आयच्छद्भ्यः आयच्छद्भ्यो विसृजद्भ्यः आगच्छद्भैत्यायच्छतेभ्यः विसृजद्भ्यश्च विसृजद्भ्य इति विसृजतेभ्यः चपः गो नमः न मो नमः नमोऽस्यद्भ्यः अस्यद्भ्यो विद्ध्यद्भ्यः अस्यभ्यैत्यस्य तेभ्यः विद्ध्यद्भ्यश्च विद्ध्यद्भ्यैति विध्यतेभ्यः शवः वो नमः न मो नमः नम आसीनेभ्यः आसीनेभ्यः शयानेभ्यः शयानेभ्यश्च शवः वो नमः न मो नमः नमः स्वपभ्यः स्वपद्भ्यो जाग्रद्भ्यः स्वपद्भेति स्वपतेभ्यः जाग्रद्भ्यश्च नमस्तिष्ठद्भ्यः तिष्ठद्भ्यो धावद्भ्यः तिष्ठद्भ्येतिष्ठद्भ्यः धावद्भ्यश्च धावद्भेति धावद्भ्यः शरः रो नमः नमो नमः नमः सभाभ्यः सभाभ्यः सभापतिभ्यः सभापतिभ्यश्च सभापतिभ्येति सभापतिभ्यः शरः वो नमः नमो नमः नमो अश्वेभ्यः अश्वेभ्योऽश्वपतिभ्यः अश्वपतिभ्यश्च अश्वपतिभ्यैत्यश्वपतिभ्यः चवः ओ नमः नमः नम आव्याधिनेभ्यः आव्याधिनेभ्यो विविध्यन्तेभ्यः आव्याधिनीभ्यैत्या व्याधिनेभ्यः विविध्यन्तेभ्यश्च विविध्यन्तेभ्यैति विविध्यन्तेभ्यः चवः गो नमः न मो नमः न मम उगणाभ्यः उगणाभ्यस्त्रगुंहतेभ्यः त्रगुंहतेभ्यश्च शवः ओनमः न मो नमः नमो कृत्सेभ्यः कृत्सेभ्यो कृत्सपदिभ्यः कृत्सपदिभ्यश्च कृत्सपदिभ्यैति कृत्सपदीभ्यः शरः वो नमः नमो नमः नमोऽभ्रातेयेभ्यः भ्रातेयेभ्यो ब्रातपदिभ्यः भ्रातपतिभ्यश्च भ्रातपदिभ्येति ब्रातपदीभ्यः शरः वो नमः नमो नमः नमो गणेभ्यः गणेभ्यो गणपतिभ्यः गणपतिभ्यश्च गणपतिभ्यैति गणपतीभ्यः ः ओ नमः नमो नमः नमोऽविरूपेभ्यः विरूपेभ्यो विरूपे भ्या। विश्वरूपेभ्यः विरूपेभ्यैति विरूपेभ्यः विश्वरूपेभ्यश्च विश्वरूपेभ्यैति विश्वरूपेभ्यः भे चवः ओ नमः नमो नमः नमो हा। महद्भ्यः महद्भ्यः क्षुल्लकेभ्यः महद्भ्यैति महतेभ्यः क्षुल्लकेभ्यश्च शवः नमः नमो नमः नमोऽिभ्यः रथिभ्यो रथेभ्यः रथिभ्यैति रथेभ्यश्च चवः वो नमः न मो नमः नमो रथे एभ्यः रथे एभ्यो रथपतिभ्यः चवः वो नमः न नमः नमः सेनाभ्यः सेनानिभ्यः सेनानिभ्यश्च सेनानिभ्य इति चवः वो नमः न नमः नमः क्षत्रुभ्यः क्षत्रुभ्यः सङ्ग्रहेतृभ्यः क्षत्रुभ्यैति क्षत्रेभ्यः सङ्ग्रहेतृभ्यश्च सङ्ग्रहेतृभ्यैति सङ्ग्रहेतृभ्यः शवः गो नमः नमो नमः नमस्तक्षभ्यः पक्षभ्यो रथकारेभ्यः पक्षभ्य इति तक्षाभ्यः रथकारेभ्यश्च रथकारेभ्यैति रथकारेभ्यः शवः गो नमः नमो नमः नमः कुलालेभ्यः कुलालेभ्यः कर्मारेभ्यः कर्मारेभ्यश्च शवः गो नमः नमो नमः नमः पुञ्जुष्टेभ्यः पुञ्जुष्टेभ्यो निषादेभ्यः निषादेभ्यश्च तवः वो नमः नमो नमः नम इषुकृद्भ्यः इषुकृभ्यो धम्बकृद्भ्यः इषुकृद्भ्य इतिषुकृतेभ्यः धम्बकृद्भ्यश्च धम्बकृद्भ्य इति धम्बकृतेभ्यः वो नमः नमो नमः नमो मृगयुभ्यः मृगयुभ्यश्निभ्यः मृगयुभ्य इति मृगयुभ्यः श्वनिभ्यश्च श्वनिभ्य वो नमः नमो नमः नमःभ्यः श्वभ्यः श्वपतिभ्यः श्वभ्य इति स्वाभ्यः स्वपदिभ्यश्च नमः नम इति नमः नमो भवाय भवाय च च रुद्राय च नमः नमः शर्वाय च पशुपतये पशुपतये च पशुपतय इति च नमः नमो नीलग्रीवाय नीलग्रीवाय च नीलग्रीवायेति नीलाग्रीवाय च शितिकण्ठाय श्रितिकण्ठाय च श्रितिकण्ठायेति शितिकण्ठाय च नमः नमः कपर्दिनेः कपर्दिने च च व्युप्तकेशाय विलुप्तकेशाय च विुप्तकेशायेतिव्यप्ताकेशाय नमः सहस्राक्षाय सहस्राक्षाय शा च सहस्राक्षायेति सहस्राक्षाय शतधन्वने शतधन्वने च शतधन्वन इति शताधन्वने शनमः नमो गिरिशाय गिरिशाय च शिपिविष्टाय शिपिविष्टाय च शिपिविष्टायेति शिपिविष्टाय शनमः नमो मेढुष्टमाय च मेढुष्टमायति मेढोत्तमाय येषु मते इषुमते च इषुमत इपेषु मते चदमः नमो ह्रस्वाय ह्रस्वाय च पापलाय पापनाय चनमः नमो बृहते बृहते च च वर्षीयसे वर्षीयसे चनमः नमो वृद्धाय वृद्धाय च स संवृध्वने च संवृध्वन इति च नमः नमो अग्रियाय अग्रियाय च प्रथमाय प्रथमाय चनमः नम आशवे आशवे च साजिराय अजिराय च नमः नमः शीघ्रियाय शीघ्रियाय च शीभ्याय शीभ्याय च नमः नम ऊर्म्याय ऊर्म्याय च तावस्वन्याय अवस्वन्याय च अवस्वन्यादेत्यवस्वन्याय शनमः नमः स्रोतस्याय श्रोतस्याय च छद्वीप्याय ध्वीप्याय चेति च ज्येष्ठाय ज्येष्ठाय चकनिष्ठाय कनिष्ठाय च नमः नमः पौर्वजाय पौर्वजाय च पौर्वजादेति पूर्वाजाय चापराजाय अपरजाय च अपराजादेत्यपराजाय शनमः नमामध्यमाय मध्यमाय चापगल्भाय अपगल्भाय च अपगल्भायेत्यपरागल्भाय शनमः नमा जघन्याय जघन्याय च बृध्नियाय वृध्न्याय च शनमः नमः सोऽभ्याय च च प्रतिसर्ग्याय प्रतिसर्याय च प्रतिसर्ग्याजेति प्रतिसर्याय च नमः नमो याम्याय याम्याय चक्षेम्याय क्षेम्याय च नमः नम उर्वर्याय च खल्याय खल्याय च नमः नमश्लोक्याय श्लोक्याय च सावसान्याय अवसान्याय च अवसान्यायेत्यवसान्याय शनमः न मावन्याय अन्याय च च कक्ष्याय कक्ष्याय नमः श्रवाय श्रवाय च प्रतिश्रवाय प्रतिश्रवाय च प्रतिश्रवायेति प्रतिश्रवाय चरवः नम आशुषेणाय आशुषेणाय च आशुषेणादेत्याशुसेनाय चाशुरथाय आशुरथाय च आशुरथायेत्याशुरथाय चरवः नमः शूराय शूराय च तावभिन्दते नवभिन्दते च नवभिन्दत इत्यवभिन्दते शृणमः नमो वर्मिणेः वर्मिणे च तवरोथिनेः वरोथिने च शृणमः नमो बिल्मिनेः बिल्मिने चकवचिनेः कवचिने च नमः श्रुताय श्रुताय च श्रुतसेनाय श्रुतसेनाय च श्रुतसेनायेति श्रुतसेनाय चेति च नमो दुन्दुभ्याय दुन्दुभ्याय च आहनन्याय आहनन्याय च आहनन्यायेत्याह अनन्याय शनमः नमो धृष्णवे धृष्णवे च प्रमृषाय प्रमृषाय च प्रमृषायेति प्रमृषाय शनमः नमो दूताय दूताय चप्रहिताय प्रहिताय च प्रहितायतिप्राहिताय शनमः नमो निषङ्गिणे विषङ्गिणे च विषङ्गिण इति चेषुधिमतेः इषुधिमते च इषुधिमत इतीषुधिमतेः च नमः नमस्तीक्ष्णेशवे तीक्ष्णेशवे थी च तीक्ष्णेशव इति तीक्ष्णा इषवेः स्वायुधिनेः आयुधिने च शनमः नमः स्वायुधाय स्वायुधाय च स्वायुधाय इति सु आयुधाय च सुधन्वने इति सुधन्वने च नमः नमसृत्याय श्रुत्याय च शपथ्याय पथ्याय चनमः नमःकाट्याय काट्याय च शनीप्याय नीप्याय च शनमः नमःसूद्याय सूद्याय च शसरस्याय सरस्याय च शनमः नमो नाद्याय नाद्याय च वैषन्ताय वैषन्ताय च शनमः नमः कोप्याय कोप्याय चावट्याय प्रवट्याय च शनमः नमो वर्ष्याय वृष्याय च सावर्ष्याय अवर्ष्याय च शनमः नमो मेघ्याय मेघ्याय च विद्युत्याय विद्युत्याय च विद्युत्यायेति विद्युत्याय चनमः नम ईध्रियाय ईध्रियाय च सातप्याय आतप्याय च सातप्यादेत्या आतप्याय चरमः नमो वात्याय वात्याय चरेष्मियाय वेश्मियाय चरमः नमो वास्तव्याय वास्तव्याय च च वास्तुपाय वास्तुपाय च वास्तुपादेति वास्तुपाय चेति च नमःसोमाय सोमाय च रुद्राय रुद्राय च नमः नमस्ताम्राय च चारुणाय अरुणाय च शनमः नमः शङ्गाय शङ्गाय च च पशुपतये च पशुपतय इति पशुपतये च नमः नम उग्राय उग्राय च भीमाय भीमाय च नमः नमो अग्रे वधाय अग्रे वधाय च अग्रे वधायेत्यग्रे दूरे वधाय च दूरे वधायेति दूरे वधाय च नमः नमो हन्त्रे हन्त्रे च चहनीयसे हनीयसे च नमः नमो वृक्षेभ्यः वृक्षेभ्यो हरिकेशेभ्यः हरिकेशेभ्यो नमः हरिकेशेभ्य इति हरिकेशेभ्यः नमस्ताराय ताराय तारा नमः नमः शम्भवे शम्भवे च शम्भव इति शाम्भवे शमजो भवे च मयो भव इति मयः भवे च नमः नमः शङ्कराय शङ्कराय च शङ्करायति शङ्करायस्कराय मयस्कराय च मयस्करायेति मयः कराय च नमः नमः शिवाय शिवतराय शिवतराय चिवतराजेति शिवातराय चमस्तीर्थ्याय तीर्थ्याय च कूव्याय कूव्याय च नमः नमः पार्याय पार्याय च भवार्याय वार्याय च शनमः नमः प्रतरणाय प्रतरणाय च प्रतरणायेति प्रातरणाय चोत्तरणाय उत्तरणाय च उत्तरणादेत्युदोत्तरणाय शनमः आतार्याय च आतार्यादेत्याः तार्याय शालाद्याय आलाद्याय च आलाद्यायेत्याः लाद्याय नमः शष्प्याय शष्प्याय चफेन्याय फेन्याय चनमः नमसिक्याय सिगत्याय च प्रबाह्याय प्रबाह्याय च प्रबाह्यायेतिप्राबाह्याय चेति च नम इण्याय इण्याय चप्रभृथ्याय प्रभृथ्याय च प्रवृत्थायेतिप्रथ्याय चनमः नमः किगुम् शिलाय किगुम् शिलाय चक्षेणाय क्षयणाय पर्दिने च च पुनस्तये पुनस्तये च शनमः नमोऽगोष्ठ्याय गोष्ठ्याय च गोष्ठ्यायेति गोष्ठ्याय च गृह्याय गृह्याय च नमः नमस्तल्प्याय तल्प्याय च गेह्याय गेह्याय चनमः नमःकाट्याय काट्याय चगह्वरेष्ठाय गह्वरेष्ठाय च गह्वरेष्ठायेति गह्वरेष्ठाय च नमः नमोहृदयाय प्रदयाय च निवेश्याय निवेश्याय च निवेश्यादेति निवेश्याय चरमः नमः पाकम् सव्याय पाकम् सव्याय च रजस्याय रजस्याय चरमः नमः शुष्क्याय शुष्क्याय च हरित्याय हरित्याय चलमः नमो लोप्याय लोप्याय चोलप्याय उलप्याय चलमः नमऊर्व्याय ऊर्व्याय च सूर्म्याय शूर्ण्याय च सनमः नमःपर्ण्याय पर्ण्याय च पर्णशद्याय प्रर्णशद्याय च पर्णशद्यायेति पर्णशद्याय सनमः नमोपगुरमाणाय अपगुरमाणाय च अपगुरमाणायेत्यपागुरमाणाय चभिघ्नते अभिघ्नते च अभिघ्नत इत्यभिघ्नते शनमः नम आखिदते अक्षिदते च आखिदत इत्याहिदते च प्रक्षिदते प्रक्षिदते च प्रक्षिदत इति प्राक्षिदते च नमः नमो वः वः किरिकेभ्यः किरिकेभ्यो देवानाम् देवानागम् हृदयेभ्यः हृदयेभ्यो नमः नमो विक्षीणकेभ्यः नमः विक्षिणकेभ्यैति वि क्षीणकेभ्यः नमो विचिन्नत्केभ्यः विचिन्नत्केभ्यो नमः विचिन्न्रत्केभ्यैति विचिन्नत्केभ्यः नम आनिर्हतेभ्यः आनिर्हतेभ्यो नमः आनिर्हतेभ्यः इत्यानिः हतेभ्यः न मम आमीवत्केभ्यः आमीवत्केभ्य इत्यात्केभ्यः प्रापेन्धसः अन्धसस्पते अपे दरिद्रते दरिद्रन्नीललोहित नीललोहिते नीलोहित येषाम् पुरुषाणाम् पुरुषाणामेषाम् एषाम् पशूनाम् पशूनाम् मा भेः भेर्मारः रोमो मो एषाम् मो इमो येषाम् किम् किञ्चन क्षनाममत् आममदित्यामत् यादेः हे रुद्र रुद्रशिवा शिवा तनोः तनोः शिवा शिवा विश्वाहभेषजी विश्वाह भेषजीति विश्वाहा भेषजी शिवा रुद्रस्य रुद्रस्य भेषजी भेषजीतयाः तया नः नो मृड मृडजीवसेः जीवस इति जीवसेः इमाकुम् रुद्राय रुद्राय तपसे तवसे कपर्दिनेः कपर्दिने क्षयद्वीराय कपर्दिने क्षयद्वीराय प्रा क्षयद्वीराजेति प्रभरामहे रामहे मतिम् मतिमिति मतिम् यथा नः नः शम् शमसत् द्विपदे चतुष्पदे द्विपद चतुष्पदे विश्वम् चतुष्पद इति चतुः पदे विश्वम् पृष्टम् ग्रामे ग्रामे अस्मिन् अस्मिन्ननातुरम् अनातुरमित्यना आतुरम् मृडानः नो रुद्र रुद्रोत उतनः नोमयः मयस्कृधि नमसा क्षयद्वीराय इति क्षयत् वीराय नमसा विधेम विधेमते तैति ते यच्छम् शम् च शमनोः मनुराजे आजे पिता आयज इत्या आयजे पिता तत् तदश्याम पश्याम तव तव मानः नो महान्तम् महान्तमुत उतमा मानः नो अर्धकम् अर्धकम् मानः न उक्षन्तम् उक्षन्तमुत मानः न उक्षितम् उक्षितमित्युक्षितम् मानः नोधीः पृथिः पितरम् मोत उत मातरम् मातरम् प्रियामा मानः नस्तनुवः तनुवो रुद्र रुद्ररीरिषः पीरिषैतिरीरिषः मानः स्तोके तोके तनगे तनये मानः नायुषि आयुषि मानः नो गोषु गोषुमा मानः नो अश्वेषु वीरान्मा मानः गो रुद्र रुद्रभावितः भावितोऽवधीः रधीरहविष्पन्दः हविष्पन्तो नमसा नमसा विधेम विधेमतेः त इति ते ते गोघ्ने गोघ्न उत गोघ्न इति गोघ्ने उत पूरुषघ्ने पूरुषघ्ने क्षयद्वीराज इति पूरुषाघ्ने क्षयद्वीराज सुम्नम् क्षयद्वीराजेति क्षयत् वीराज सुम्नमस्मे अस्मेतेः अस्मे इत्यस्मे ते अस्तु अस्तु इत्यस्तु रक्षा चनः नो अधि अधि चरेव देवब्रूहि ब्रूह्यध अधा चनः न शर्म शर्म यच्छ यच्छद्विबर्हाः द्विबर्हा इति द्विबर्हाः स्तुहि श्रुतम् श्रुरम् गर्तसदम् गर्तसदम् युवानम् गर्तसदमिति गर्तासदम् युवानम् मृगम् मृगन्न न भीमम् उपहत्नमुग्रम् उग्रमित्युग्रम् रुडाचरित्रे जरित्रे रुद्र रुद्रस्तवानः स्तवानो अन्यं अन्यन्ते ते अस्मत् अस्मन्नि निपपन्तु वपन्तु सेना आः सेना इति सेनाः परिणः नो रुद्रस्य रुद्रस्य हेतिः हेतिर्वृणक्तु वृणक्तुपरि परित्वेषस्य त्वेषस्य दुर्मतिः दुर्मतिरघायोः दुर्मतिरिति दुहो मतिः अघायोरित्यघायोः अवस्थिरा स्थिरा मघवद्भ्यः मघवद्भ्यस्तनुष्व मघवद्भ्य इति मघवदेभ्यः मीड़ा, तनुष्वमेध्वः मेध्वस्तोकाय तोकाय तनयाय तनयाय मृडयेति मृडया मेढुष्टमशिवतम मेढुष्टमेति मेढोतम शिवतम शिवतमेति शिवा तमा शिवो नः असुमनाः सुमना भवेति भव परमे वृक्षे वृक्ष आयुधम् आयुधम् निधाय निधाय कृत्तिम् निधायेति निधाय कृत्तिम् वसानः आ आचर शरपिनाकम् पिनाकम् पिना विभ्रद विभ्रदा आगहि गहीति गहि विकिरिदविलोहित गही, विकिरिदे दिवि किरिद विलोहितरमः विलोहिते दिवि लोहित नमस्ते हे अस्तु अस्तु भगवः भगव इति भगवः यास्ते ते सहस्रम् सहस्रगुम्हेतयः हेतयोऽन्यम् अन्यमस्मत् अस्मन्नि निवपन्तु वपन्तु ताः आयतिताः सहस्राणि सहस्रधा सहस्रधा बाहुवोः सहस्रधेति सहस्रार्धा बाहुवोस्तव तव हेतयः हेतज इति हेतयः तासामीशानः ईशानो भगवः भगवः प्राचीना भगव इति भगवः प्राचीनामुखामुखा कृधि कृधीति कृधि सहस्राणि सहस्रशः सहस्रशो ये सहस्रश सहस्राशः ये रुद्राः रुद्रा, रुद्रा अधिभूम्याम् भूम्यामिति भूम्याम् तेषाम् सहस्रयोजने सहस्रयोजने वा सहस्रयोजन इति सहस्रायोजने अवधन्वानि धन्वानि तन्मसि तन्मसीति तन्मसि अस्मिन्महति महत्यर्णवे अर्णवे अन्तरिक्षे अन्तरिक्षे भवाः भवा अधि अधीत्यधि नीलग्रीवाः शितिकण्ठा नीलग्रीवा इति नीलग्रीवाः शितिकण्ठाः सर्वाः श्रितिकण्ठ इति शितिकण्ठा आह शर्वा अधः अधः क्षमाचराः क्षमाचरा इति क्षमाचराः नीलग्रीवाः श्रितिकण्ठ आह नीलग्रीवा इति नीलग्रीवाः शितिकण्ठादिवम् शितिकण्ठा इति शितिकण्ठा आह दिवगुम् रुद्राः रुद्रा उपश्रिताः उपश्रिता इत्युपाश्रिताः ये वृक्षेषु वृक्षेषु सस्मिन्दराः सस्पिन्दरा नीलग्रीवाः नीलग्रीवा विलोहिताः नीलग्रीवा इति नीलाग्रीवाः विलोहिता इति वि लोहिताः ये भूतानाम् भूतानामधिपतयः अधिपतयो विशिखासः अधिपतय इत्यधिपतयः विशिखासः कपर्दिनः विशिखास इति वि शिखासः कपर्दिन इति कपर्दिनः ये अम्नेषु अम्नेषु विविध्यन्ति विविध्यन्ति पात्रेषु विविध्यन्ति इति विविध्यन्ते पात्रेषु पिबतः पिबतो जनानि जनानि जनानि ये पथाम् पथाम् पथिरक्षयः पथिरक्षय ऐलवृताः पथिरक्षय इति पथिरक्षयः एलवृता जव्युधः यव्युध इति जव्युधः ये तीर्थानि ती तीर्थानि प्रचरन्ति प्रचरन्ति सृकावन्तः प्रचरन्ति इति प्राचरन्ति सृगावन्तोनिषङ्गिणः सृकावन्त इति सृकावन्तः शङ्गिण इति निसङ्गिणः य एतावन्तः एतावन्तश्च च भूयागुंसः भोजागुंसश्च त दिशः दिशो रुद्रावितस्थिरे तस्थिर इति वीतस्थिरे येषाकम् सहस्रयोजने सहस्रयोजने वा सहस्रयोजन इति सहस्रायोजने अवधन्वानि धन्वानि तन्मसि तन्मसी तन्मसीति तन्मसि तमा रुद्रेभ्यः रुद्रेभ्यो ये प्रतिव्यां, प्रतिव्यां ये पृथिव्याम् ये दिवि दिवि एषाः येषामन्नम् ये अन्नम् वातः पातो वर्षम् वर्षमिषवः इषमस्तेभ्यः तेभ्यो दश दशप्राचीः प्राचीर्दश दशदक्षिणा दक्षिणादश दशप्रतीचीः प्रतीचीर्दश दशोदीचीः प्रतीचीर्दश दशोर्धाः ऊर्धास्तेभ्यः तेभ्यो नमः नमस्ते तेनः नो वृडयन्तु वृडयन्तु ते तेयम् यन्द्विष्मः विष्मोजः यश्च तमः नोद्वेष्टि द्वेष्टितम् तम्बः वो जम्भे ए, जम्भे दधामि दधामीति दधामि दधामी, ओ चतुर्थकाण्डे पञ्चमः प्रश्नः